मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं नैन्टीन् मखमासशुक्लचतुर्थी चरितवर्णनं श्रीगणेशाय नमः दशरथ उवाच वदब्रह्मण्मखे मासे चतुर्थी या समागता वरदा चरितं तस्य सर्वसिद्धिप्रदायकम् वसिष्ठ उवाच अत्र ते कथयिष्यामि चेदिहा सम्पुरातनं चतुर्थी महिमायुक्तं श्रवणात् सर्वदं परम् अन्ध्रे राजा सुषेणश्च चकारराज्यमुत्तमं नगरे चम्पके भूप शस्त्रास्त्रे पारगोमदः नीत्या धर्मेण कीर्त्या दानेन यश आर्जयेद देवविप्रातिथिप्रेप्सुर्यज्वा व्रतपरायणः जित्वा भूमण्डलं सर्वं राज्यं चकारधर्मदः राजानः करदा सर्वे सेवां चक्रोर्महीपतेः तस्य राज्ये महासर्पा बक्ष्जना सदा त्रचर क्षुभा सर्प परुण जन्ई कुहिपालगंधु नक्यथ दुखित वनुहेशु राजा तथ दुःखार्तो महाभयपरायणः नागानां चान्दये सर्वैः पञ्चमी साधिदा भवद तथा स्मनशमं यान्धि नागाः परमदारुणः नानापुण्यानि तीर्थानि जनाश्चक्रुर्विशेषतः तथाधिकं ययः क्रूरानागा सर्वत्र भूमिषु राजेन्द्रखगुरुं तत्र जैमिनिं शरणं ययौ तं प्रणम्य पुरस्तस्य संस्थितसकृताञ्जलिः तं मुनिर्मानयामासा सानदानाद्विशेषतः प्र विनयेनैव युक्तं किमर्थमागतः सुषेणः स तथोवाच निःश्वस्य मुनिपुङ्गवं सुषेण उवाच स्वामिन् सर्पा अपाराश्च दर्शन्तश्च सदा जनान् नस्तातुं शक्यते तत्र भयसङ्कुलितैर्मुने नानोपाह्याकृतास्तत्र न शान्तिं लेभिरेततः तदर्थं त्वां महाभागप्रष्टुमत्र समागतः वदसर्पगणानां च शान्दये किं करोम्यहं विप्रनोचे त्वत्समीपे देहत्यागं करोमि वसिष्ठ उवाच एवं पृष्ठो महादेजा जैमिनिस्तमुवाचः स्वशिष्यं निन्दयन् राजंस्तश्रुनुष्व समाहितः जैमिनिरुवाच चतुर्धीजं महापापि नष्टं राज्ञे तव व्रतं तेन त्वं च मृतैः प्रपतिष्यसि चतुर्नां पुरुषार्थानां दादृत्वाद्वरदा मदा तथा सङ्कटनाशित्वात् सङ्कष्ठी सा प्रकीर्तिता यदिव्रतं च सर्वादौ न कृतं चेन्निरर्थकम् कर्महीनं चतुर्भिस्तन्नित्यं कार्यात्तदः प्रभो एवमुक्त्वा चतुर्ध्याश्च माहात्म्यं मुनिषत्तमः कथयामास तच्छ्रुत्वा सुषेणस्थं तदा ब्रवीद सुषेण उवाच कीदृश्योऽयं गणेशानुव्रतं यस्य महाद्भुदं वद तस्य स्वरूपं मे भजिष्यामि महाप्रभुम् जैमिनिरुवाच न वक्तुं शक्यते राजन् केनाप्येतत्स्वरूपकम् उपाधिनायुधं ढुण्ढिं वदामि शृणुतत्वदः अहं पुरा सुशान्त्यर्थं व्यास्रं शरणं गतः मह्यम् सङ्कथितं तेन साक्षान्नारायणेन ना च तदेव त्वां वदिष्यामि स्वशिष्यं च नृपाधमं यदितं तं भज शिह्यद्य सर्वसिद्धिप्रदायकं देहदेहिमयं सर्वं गकाराक्षरवाचकं नकारवाचकं ब्रह्म संयोगा तयो स्वामी गणेशस्तु पश्य वेदे महामदे चित्ते निवासकत्वाच्चिन्तामणिर्वै स कथ्यते चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महीपदे सिद्धिस्तत्र तयोर्योगे प्रलभ्येत तयोः पदिः एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरं सुषेणाय यथा विधियुक्तं विशेषदः ततस्तेनाभ्यनुज्ञातस्वपुरं स जगामः तत्रादौ मलमासश्च सम्प्राप्तस्तेन भूमिप मखमासे गणेशस्य वरदास्यं समागतं सोऽपि शुक्ले चतुर्थीजं व्रतं चक्रे सुभकृतः नागरैर्विविधैर्लोकैः समीपग्रामसंस्थितैः तत्कृतं विधिना राजन् सर्वसिद्धिप्रदायकं तदस्तेन सुर्षेणेन प्रशस्तं भूमिमण्डली कृतं ततो जनाः सर्वे चक्रुर्हर्षसमन्विताः अभवन्व्रत पुण्येन सर्पा अन्तर्हिता बभुः लोकारोगादिभिः सर्वे वर्जिता हर्षसंयुताः पुत्रपौत्रादिसंयुक्ता धनधान्यसमन्विताः नाना सुखेषु संसक्ता अभवंस्तत्र ते तदः राजा गणपतिं नित्यमभजन् षडक्षरेण मन्द्रेण विधियुक्तेन पूजयन् पुत्रे राज्यं विनिक्षिप्य सस्त्रीकस्स वनं तात्र तत्र विघ्नेशमेवंसो पूजयन् जप तत्परः अन्ते स्वानन्दको भूत्वा ब्रह्मभूतो बभूवः जना सर्वे व्रते संस्थाश्युप्ल कृष्णभवे परे स्वान्दे क्रमेण दे सर्वे ब्रह्मभूता बभूविरे व्रतस्यैव प्रभावेण न किञ्चिद्दुर्लभं भवेद् अन्यच्छृणो महीपालचरितं मलमासगं पुण्यं शुक्लचतुर्धीजं श्रवणात् सर्वदं भवेद् अस्तिना पुरवासी बाल्यात् प्रभृदि वैसोपि पापाचारो बभूवः द्रव्यलोभार्थमेवं स्वजनकं स जखानः परो पूर्णश्चौरकर्मपरो भवद एवं नानाविधं पापं चक्रे सौ दुर्मदिः सदा वने स्थितः कदाचिद्वै जनाञ्जघ्ने महाकलः यदस्मिन्नन्तरे तत्र सर्पेणैव महीपदे दष्टः सोऽपि भयोद्विघ्नो गृहे गन्तुं मनो दधे ततो संव्याप्तो देहस्तेन पपातः दैवयोगेन तत्रा सौज्जलान्नरहितोऽभवद शुक्लपक्षे मखे मासे चतुर्थी सतिधिस्तदा तेन प्राप्ता तत्र भूव अज्ञानेन व्रतं कृतं पञ्चम्यां मृतस्तत्र वने कोरे महाकलः स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूवः नाना जनाव्रतेनैव ब्रह्मभूता बभूविरे इह भुक्त्वाखिला भोगानन्दे वक्तुं न शक्यदे इदं चतुर्थी महात्म्यं मखमासे शृणोति चेद् शुक्लपक्षे लभेत्सोऽपि पठेद्वा सर्वमञ्चसा ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मखमासशुक्लचतुर्थीचरितवर्णनं नाम एकोनविंशोऽध्यायः ओ